अथ षट्त्रिंशः सर्गः भूय एव महातेजा हनूमान् पवनात्मजः अब्रवीत् प्रश्रितम् वाक्यम् सीता प्रत्ययकारणात् वानरोऽहम् महाभागे दूतो रामस्य धीमतः रामनामाङ्कितम् चेदम् पश्य प्रत्ययार्थं प्रत्ययार्थम् तवानीतम् तेन दत्तम् महात्मना समाश्वसिः भद्रन्ते क्षीणदुःखफला ह्यसि गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषितम् भर्तारमिव सम्प्राप्तम् जानकी मुदिता भवत् चारु तद्वदनम् तस्यास्ताम्रशुक्लायते क्षणम् बभूव हर्षोदग्रम् च राहुमुक्त इवोडुराट् ततः बाला भर्तुः सन्देशहर्षिता परितुष्टा प्रियङ्कत्वा प्रशशंस महागपिम् विक्रान्तस्त्वम् समर्थस्त्वम् प्राज्ञस्त्वम् वानरोत्तमा येनेदम् राक्षसपदम् त्वयैकेन प्रदर्शितम् शतयोजनविस्तीर्णः सागरो मकरालयः विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः महि त्वाम् प्राकृतम् मन्ये यस्य तेनास्ति सन्त्रासो रावणादपि सम्भ्रमः अर्हसेचकपि श्रेष्ठमया समभिभाषितुम् यद्यसि प्रेषितस्तेन रामेण विदितात्मना प्रेषयिष्यति दुर्धर्षो रामो नह्यपरीक्षितम् पराक्रममविज्ञाय मत्सकाशम् विशेषतः दिष्ट्या चकुशली रामो धर्मात्मा सत्यसङ्गरः लक्ष्मणश्च महातेजा कुशली यदि काकुत्स्थः किम् न सागरमेखला महीन्दहति कोपेन युगान्ताग्निरिवोत्थितः अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ममैव तु न विपर्ययः कच्चिन्न रामः कच्चिन्न उत्तराणि च कुरुते पुरुषोत्तमः कच्चिन्नदीनः सम्भ्रान्तः कार्येषु च न मुह्यति कच्चित्पुरुषकार्याणि कुरुते नृपतेः सुतः द्विविधम् त्रिविधोपायमुपायमपि सेवते विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः कच्चिदाशास्ति देवानाम् प्रसादम् पार्थिवात्मजः कच्चित्पुरुषकारम् च दैवम् च प्रतिपद्यते कच्चिन्नविगतस्नेहो विवासान्मयि राघवः कच्चिन्माम् व्यसनादस्मान् मोक्षयिष्यति राघवः सुखा मुचित निमसुखाचि दुखमुत्तरसा कच्चिद्रा नीतती कच्चित कच्चि सुविराया तथा चीक्षते कच्चिकुशल भरत से मन मना कच्चिशोक राघव कच्चिन् नान्यमनारामः कच्चिन्माम् तारयिष्यति कच्चिदक्षौहिणीम् कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति रौद्रेण कच्चिदस्त्रेण रामेण निहतम् रणे द्रक्ष्याम्यल्पेन कालेन रावणम् स सुहृजनम् कच्चिन्न तद्धेम समानवर्णम् तस्याननम् पद्मसमान गन्धी मया विना शुष्यति शोकदीनम् जलक्षये पद्ममिव तपेन धर्मापदेशात् त्यजतस्वराज्यम् माम् चाप्यरण्यम् न यतः पदातेः नासीद्यथा यस्य न भीर्न हृदये करोति न माता न पिता ना मया समो तावध्यहम् दूतजिजीविषेयम् यावत् प्रवृत्तिम् शृणुयाम् प्रियस्य इतीव देवी वचनम् महार्थम् तम् वानरेन्द्रम् मधुरार्थमुक्त्वा श्रोतुम् पुनस्तस्य वचोऽभिरामम् रामार्थयुक्तम् विरराम राम सीताया वचनम् श्रुत्वा मारुतिर्भीम विक्रमः शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् न त्वामिहस्ताञ्जानीते रामः कमललोचनः तेन त्वाम् नानयत्याशु शचीमिव पुलम् दरः श्रुत्वैव च वचो राघवः च मोम् प्रकर्षन् महतीम् हर्युरक्षगणसंयुता इष्टम् भयत्वा बाणौघै रक्षोऽभ्यम् वरुणालयम् करिष्यति पुरीम् लङ्काम् काकुत्स्थः शान्तराक्षसा तत्र यद्यन्तरा मृत्युर्यदि देवामहासुराः स्थास्यन्ति पथि रामस्य सतानपि वधिष्यति तवा दर्शनजय नार्ये शोकेन परिपूरितः न शर्मलभते राम सिंहार्दित इव दिवः मन्दरेण च ते देवि शपे मूलफलेन च मलयेन च विन्ध्येन वेरुणा दर्दुरेण च यथा सुनयनम् वल्गुबिम्बोष्ठम् चारुकुण्डलम् मुखम् द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् क्षिप्रम् द्रक्ष्यसि वैदेहि रामम् प्रस्रवणे गिरौ क्षतक्रतुमिवासीनम् नागपृष्ठस्य मूर्धनी न माम् संराघवो भुङ्क्ते चैव मधुसेवते वन्यम् सुविहितं नित्यम् भक्तमश्नाति पञ्चमम् नैव दंशान्न मशकान्न कीटान्न सरीसृपान् राघवोपनयेद्गात्रात् त्वद्गते नान्तरात्मना नित्यम् ध्यानपरो रामो नान्यच्चिन्तयते किञ्चित् स तु कामवशम् गतः अनिद्रः सततम् रामः सुप्तोऽपि च नरोत्तमः सीतेति मधुराम् वाणीम् व्याहरन् प्रतिबुध्यते दृष्ट्वा फलम् वा पुष्पम् वा यच्चान्यत्स्त्रीमनोहरम् बहुशोहा प्रियेत्येवम् श्वसम् स्त्वामभिभाषते स दे वि नित्यम् परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षट्त्रिंशः सर्गः